प्रवाचिका मुदिता ताली भाजपादलेन जम्मूकश्मीरे पीडीपी दलस्य संयुति परित्यक्ता मुख्यमंत्री महबूबा मुफ्ती अद्य स्वत्यागपत्रं दत्तवती प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी श्व प्रात सार्धनववादने कृषकै सह सम्भाषणं करिष्यति वित्तमन्त्री पीयूषगोयल अद्य नवदिल्ल्यां सार्वजनिकक्षेत्राणां त्रयोदश बैंक प्रमुखै साकं तेषां समस्या समाधानाय सम्भाषणं करोति मानव संसाधन विकासमन्त्री प्रकाशजावडेकर अद्य देशस्य राष्ट्रिय डिजिटल पुस्तकालयस्य श्भारम्भम् अकरोत् भाजपा भाजपादलेन जम्मूकश्मीरे पीडीपी दलस्य संयुति परित्यक्ता नवदिल्ल्यां भाजपा नेता राममाधव प्रोक्तवान् यत् निर्णयोऽयं सर्वसम्मत्या स्वीकृत अपि चोक्तं यत् भाजपादलस्य कृते पीडीपी दलस्य, पी दलस्य संयुति असमर्थनीया उपत्यकायां कट्टरता संवर्धत कश्मीरस्य स्थिते परिवर्तन आतंकवारणे च पीडिपी नेतृत्वं असमर्थमस्ति तथापि केन्द्रम् आतंकोन्मूलनाय सर्वसम्भवं साहाय्यं करिष्यति प्रधानमन्त्री श्रीनरेन्द्रमोदी श्व प्रात सार्धनववादने कृषकै सह सम्भाषणं करिष्यति कृषि किसान कल्याण मंत्री राधामोहन सिंह अवादीत् यत् श्रीमोदी द्वाविंशत्यधिक द्विसहस्रतम वर्ष पर्यन्तं कृषकाणां वेतनं द्विग्णं भवेत् अस्य कृते विभिन्नोपायानां चर्चा करिष्यति वित्तमन्त्री पीयूष गोयल अद्य नवदिल्ल्यां सार्वजनिक क्षेत्राणां त्रयोदश बैंक प्रमुखै साकं तेषां समस्या समाधानाय सम्भाषणं करोति स्रोतभि ज्ञापित् यत् एषम वार्षिक वित्तीय परिमाणानन्तरं सार्वजनिक बैंक प्रमुखै सह प्रथमोऽयं उपवेशनं वर्तते अवधेयमस्ति यत् विगत वित्तीयवर्षस्य अन्तिम त्रैमासिक्यां भूरि बैंकै हानि प्रदर्शितासीत मानव संसाधन विकास प्रकाश जावडेकर अद्य देशस्य राष्ट्रिय डिजिटल पुस्तकालयस्य श्भारम्भम अकरोत् अस्मिन् अवसरे श्री श्रीजावडेकर अवादीत् यत् शिक्षाया कृते एष पुस्तकालय एकल वातायन मञ्च भविष्यति पाठका गुगल प्ले स्टोर इत्यस्य माध्यमेन राष्ट्रिय डिजिटल पुस्तकालय निशुल्क पंजीकरणं कर्त् शक्नुवन्ति राष्ट्रपति रामनाथकोविन्द देशत्रयस्य यात्राया द्वितीये चरने सूरीनां देशं श्री श्रीकोविन्द ग्रीस सूरीनां क्यूबा देशयो यात्रारतो वर्तते ग्रीस यात्रावधौ भारतग्रीसयो मध्ये सन्धिपत्रयं हस्तक्षिरत उच्चम उच्चतमन्यायालय दिल्ल्या उपराज्यपालस्य कार्यालये मुख्यमन्त्री अरविन्द केजरीवालस्य अपि च तस्य मन्त्रिमण्डल जनानां प्रदर्शनं असंवैधानिकम् अस्ति अस्याम याचिकायाम् अद्य वादश्रवणम् अस्वीकृतवान् वादश्रवणं ग्रीष्मकालस्य अवकाशानन्तरं भविष्यति बृहस्पतिवासरे अन्ताराष्ट्रिय योगदिवस अस्ति योगदिवसस्य उपलक्ष्ये सम्पूर्णे विश्वे विभिन्न आयोजनं भविष्यति पंचदशाधिक द्विसहस्रतमेवर्ष संयुक्तराष्ट्रमहासभायां सर्वसम्मत्या एव जूनमासस्य एकविंशति दिनांके योगदिवस आमन्यते इति